त्वारिंशः सर्गः ततोऽद्याम् पृथिवीम् चैव वीक्षमाणावनौकसः ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ वृष्ट्वेव परते देवे कृतकर्मणिराक्षसे आजगामाथ तम् देशम् स विभीषणः नीलश्च द्विविदो मैन्दः सुषेणः कुमुदोऽङ्गदः ूर्णम् हनुमता सार्धमन्वशोचन्तराघवौ अचेष्टौ मन्द निःश्वासौ शोणितेन परिप्लुतौ शरजालाचितौ स्तब्धौ शयानौ शरतल्पगौ निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्द विक्रमौ रुधिरस्रावदिग्धाङ्गौ तपनीयाविवध्वजौ तौ वीरशयने वीरौ शयानौ मन्द चेष्टितौ यूथपैस्वैः परिवृतौ बाष्पव्याकुलोचनैः राघवौ पतितौ दृष्ट्वा शरजालसमन्वितौ बभूवुर्यथिताः सर्वे वानराः स विभीषणाः अन्तरिक्षम् निरीक्षन्तो दिशः सर्वाश्च वानराः न चैनम् माययाच्छन्नम् ददृशो रावणिम् रणे तम् तु मायाप्रतिच्छन्नम् मायैव विभीषणः वीक्षमाणो ददर्शाग्रे भ्रातुः पुत्रमवस्थितम् तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ददर्शान्तर्हितम् वीरम् वरदानाद्विभीषणः तेजसा यशसा चैव विक्रमेण च संयुतः इन्द्रजित्वात्मनः समीक्ष्य च उवाच परमप्रीतो हर्षयन् सर्वराक्षसान् दूषणस्य च हन्तारौ खरस्य च महाबलौ सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ वेमौ मोक्षयितुम् शक्या वेतस्मादिषु बन्धनात् सर्वैरपि समागम्य सर्षि सङ्घैः सुरासुरैः यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्ममा अस्पृष्ट्वा शयनम् गात्रैस्त्रिया मायाति शर्वरी कृत्स्नेयम् यत्कृते लङ्का नदी वर्षास्विवाकुला सोऽयम् मूलहरोऽनर्थः सर्वेषाम् शमितो मया रामस्य लक्ष्मणस्यैव सर्वेषाम् च वलौकसा विक्रमा निष्फलाः सर्वे यथा शरदितो यदाः एवमुक्त्वा तु तान् राक्षसान् परिपश्यतः यूथपानपि ताम् सर्वाम् स्थाडयत्स च नीलम् नवभिराहत्य मैन्दम् सद्विविदम् तथा त्रिभिस्त्रिभिरभित्रघ्नस्ततापपरमेषुभिः जाम्बवन्तम् महेश्वासो विध्वा बाणेन वक्षसि हनूमतो वेगवतो विससर्ज शरान्दशा गवाक्षंशरभम् चैव तावप्यमित विक्रमौ महावेगो विव्याधयुधिरावणिः गोलाङ्गोलेश्वरम् चैव वालिपुत्रमथाङ्गदम् दिव्याध बहुभिर्बाणैस्त्वर बाणोऽथ रावणिः तान् वा नरवरान् भित्वा शरैरग्निशिखोपमैः नलादबलवांस्तत्र महासत्वः स रावणिः ता नर्दयित्वा शरबन्धेन घोरेण नमया बद्धौ च मुखे स हितौ भ्रातरा वेतौ निशामयतराक्षसाः एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः परम् विस्मयमापन्नाः कर्मणा तेन हर्षिताः विने दुश्च महानादान् सर्वे ते जलदोपमाः हतो राम इति ज्ञात्वा रावणिम् समपूजयन् निष्पन्दौ तु दृष्ट्वा भ्रातरौ रामलक्ष्मणौ वसुधायाम् निरुच्छ्वासौ हता वित्यन्वमन्यत हर्षेण तु समाविष्ट इन्द्रजित्समितिम् जयः प्रविवेशपुरीम् लङ्काम् हर्षयन् सर्वनैररुतान् रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते सर्वाणि चाङ्गोपाङ्गानि सुग्रीवम् भयमाविशत् तमुवाच परित्रस्तम् वानरेन्द्रम् विभीषणः स बाष्पवदनम् शोकव्याकुललोचनं शोकव्याकुलोचनम् फलम् त्रासेन सुग्रीव बाष्पवेगो निगृह्यता एवम् प्रायाणि युद्धानि विजयो नास्ति लैष्ठिकः यदि वीरभविष्यति मोहमेतौ प्रहास्येते महात्मानौ महाबलौ पर्यवस्थापयात्मानमनाथम् वाञ्च वानर सत्यधर्माभिरक्तानाम् नास्ति मृत्युकृतम् भयम् एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना सुग्रीवस्य शुभे नेत्रे प्रममार्जविभीषणः ततः सलिलमादाय विद्यया परिजप्य च सुग्रीवनेत्रे धर्मात्मा प्रममार्जविभीषणः विमृज्यवदनम् तस्य कपि राजस्य धीमतः अब्रवीत्कालसम्प्राप्तमसम्भ्रान्तमिदम् वचः न कालः कपि राजेन्द्रवैक्लव्यमवलम्बितुम् अतिस्नेहोऽपि कालेऽस्मिन्मरणायोपकल्पते तस्मादुत्सृज्य वैक्लव्यम् सर्वकार्यविनाशनम् हितम् रामपुरोगाणाम् सैन्यानामनुचिन्तया अथवा रक्ष्यताम् रामो यावत् सञ्ज्ञाविपर्ययः लब्धसञ्ज्ञौ हि काकुत्स्थौ भयम् नौ व्यपनेष्यतः नैतत्किञ्चन रामस्य न च रामो मूर्षति न ह्येनम् हास्यते लक्ष्मीर्दुर्लभाया गतायुषा तस्मादाश्वासयात्मानम् यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम् एते हि फुल्लनयनास्त्रासादागतसाध्वसाः कर्णे कर्णे प्रकथिता हरयो हरिसत्तमा माम् तु दृष्ट्वा प्रधावन्तमनीकम् सम्प्रहर्षितम् त्यजम् तु हरयस्त्रासम् भुक्तपूर्वाविवस्रजम् समाश्वास्य तु सुग्रीवम् राक्षसेन्द्रो विभीषणः इंद्रजिमहासैन्य सवृत विवेश नगरी पितर चाभ्युपत्वमासा अभिवादि आचचक्षे प्रिये निहतौ राण उत्पात तृष्ट पुत्र चवे रावणोंक्षसा मध्ये शुवा शत्रु निपात उपाघ्राय च तम् मूर्ध् प्रच्छ प्रीतमानसः पृच्छते च यथा वृत्तम् पित्रे तस्मै न्यवेदयत् यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ सहर्षवेगानुगतान्तरात्मा श्रुत्वा गिरम् तस्य महारथस्य जहौ ज्वरम् दाशरथेः समुत्थम् प्रहृष्टवाचाभिननन्द पुत्रम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्चत्वारिंशः